श्रीहरये नमः अथ षष्ठ्योऽध्यायः मैत्रेय उवाच अथ देवकणा सर्वे रुद्राणी पराजिताः शूलपट्टिसनिस्त्रिं स गता परिगमोद्गरैः सर्वाङ्गा सर्वित्सभ्या मयाकुलाः स्वयं भुवे नमस्कृत्य उपलभ्य पुरैवैतत् भगवानब्जसम्भवः नारायणश्च विश्वात्मान कस्याध्वर तथा कर्ण्यविभुप्रागते जीयसी कृतागसि क्षेमाय तत्र सा भूयात्म ये बर्हिषो भागभाजं परादुः प्रसादयध्वं परिशुद्धचेतसा शि प्रप्रसादं आसासान जीवितं मध्वरैस्य लोकसफालकुपितेन यस्मिन् तमासुदेवं प्रियया शमापयद्वं क्षमाभयध्वं हृदि विद्धं दोरोक्तैः नाहं न यज्ञो न मुनयश्च तत्त्वम् विदुः प्रमाणबलवीर्योर्वा यस्यात्मतन्त्रस्य उपायं उपाय विधित् सेत्स इद्धमादिश्य सुरानजस्तये समन्वितः कैलासं मत्रिप्रवरं प्रियं प्रभोः जन्मौषधि तपोमन्त्रयोगसिद्धैर्नरेतरैः जुष्टं किन्नरगन्धर्वै अप्सरोभिर्व्रतं सदा नानामणिमयै शृङ्गैर्नानाधातुविचित्रतैः नानाद्रुमलता नाना गुल्मैर्नाना मृगगणाव्रतैः ना नानामलप्रस्रवणैर्नानाघन्तरसानुभि रमणं विहरन्तीनां रमणैषिद्धयोषिता मयोरके काभिरुदं मधान्धालिविमूर्छितम् प्लावितैरक्तकण्ठानां गूजितैश्च पथतॄणाम् आह्वयन्तमिवोद्धस्तैर्द्विजान् कामदुगैर्द्रुमैः व्रजन्तमिव मादङ्गैर्गृणन्तमिव निर्झरैः मन्दारैः पारिजातैश्च शरलैश्चोपशोभितम् तमालैश्चालतालैश्च गोविदारासनार्जुनैः सूतैकदम्बैनिपैश्च नागपुन्नागशम्पकैः पाटलाशोकभकुलैकुन्तै कुरभकैरपि स्वर्णार्णशतपत्रैश्च भर रेणुगजादिभिः कुब्जगैर्मल्लिकाभिश्च मातवीपिश्च मण्डितं पनसोधुम् परस्वत्तप्लक्षन् यग्रोदहिङ्गुभिः पूर्जैवोषधिभिघैराजभूगैश्च जम्बुभिः राध्यै गर्जूरां राधकाम्राध्यै प्रियालमधुकेङ्गुधैः द्रुमजादिभिरन्यैश्च राजितं वेणुकीचकैः कुमुदोत्पलकल्हारसतपत्रवनर्दिभिः नळिनीशुकलं गोजत्ककवृन्दोपशोपिधम् मृगै शकामृगैक्रोढैर् मृगेन्द्रैरुक्षसल्यकैः कवयक्सरभैर्व्याघ्रैरुभिर्महिषादिभिः कर्णान्त्रैर्कभदास्वास्यैर्निर्जुष्टं निर्जुष्टं गतली कण्ठसमृद्धनलिनीपुलेन श्रियं पर्यस्तं नन्दया त्यस्नानपुण्यतरोधया विलोक्यभूते स गिरिं विभुधा विस्मयं ययोः ददृशुस्तत्र रेरं यामलकां नाम वैपुरीं वनं सौगन्धिकं तीर्थपादपदाम्बोजरजसा अतीव पावने ययोसुरस्त्रियक्षथरवरुह्यस्वतिष्ण्यतः क्रीडन्ति पुंस चिञ्चन्त्यो रतिकर्षिताः ययोस्तत्स्नान विभ्रष्टनवकुङ्कुमभिञ्जरम् विदृषो बिबिभन्त्यम् भपाय यन्तो गजा गजीः तारहे ममारत्नविमानसदसङ्कुलां जुष्ठां पुण्यजनस्त्रीभिर्यथाकं सतडिद्घनं हित्वा यशेश्वरपुरीं वनं सौघन्तिकं च तत् द्रुमैकामधुहैर्हृत्यं चित्रमाल्यपलश्च दैः रत्नकण्टकगानीकेश्वरमण्डितषट्पथं कलहंसकुलप्रेष्ठं करदण्डजलाशयं वनकुञ्जरसंगृष्टहरिचन्दनवायुना आधिपुण्यजनस्त्रीणामुखोमुन्मतयन्मनः वैदूर्यकृतसोपनावाप्यवत् पलमालिनी प्राप्तं किं पुरुष दृष्ट्वा त आराधतृशूर्वटं संयोजनसतोत्सेध पाधो न विटपायतः पर्यक्कृता चलच्चायो निर्नीटस्ताबभर्जितः तस्मिन्महायोगमये मुमुक्षुसरणे सुराः ददृशि शिवमासीनं त्यक्ता मर्षम् स नन्दनाद्यैर्महासिद्धैः शान्तैः उपास्यमानं सख्या च भद्रा गुह्यक रक्षसा विद्यातपोयो गभतमास्थितं तमधीश्वरं चरन्तं विश्वसुहृतं वात्सल्यालोकमङ्गलम् लिङ्गं च तापसाभीष्टं भस्मदण्डझझजडाजिनम् अङ्गेन सन्त्या भ्रररुषा चन्द्रलोकं च बिभ्रतम् उपविष्टं दर्भमय्यां पृश्यां ब्रह्मसनातनं नारदाय प्रवोचन्तं प्रश्यते शृण्वतां सदां वो रौ सव्यं पादपद्मं च जानुनी बाहुं प्रकोष्ठे क्षमालामासीनं तर्गमुद्रया तं ब्रह्म निर्वाणसमाधिमाश्रितं व्युपार्शितं गिरिशं योगकषां स लोकपाला मुनये मनूनां माद्यं मनुप्राञ्जलयः प्रेणमुः सधोपलभ्यागतम् आत्मयोनिं सुरासुरे सै अभिवन्दिदाृही उत्थाय चक्रे विष्णुः तथा परे नमस्कृतप्राहससाङ्गसेकरं कृतप्रणामं प्रहसन्निव आत्मभूः ब्रह्मो वाच जाने त्वमीसं विश्वस्य जकतो योनिबीजयोः ते शिवस्य च परं यद्ध्रह्मनिरन्तरं त्वमेव भगवन्ने तत् शिवशक्त्यो स्वरूपयोः विश्वं सृजति पास्य स्त्रिक्रीटनूर्न पठो यत त्वमेव धर्माद्धदुका विपत्तये दक्षिण सूत्रेण स सर्जिधात्वरं त्वयैव लोके वसिधाश्च से तवो यान् ब्राह्मणा श्रद्ध दधे व्रताः त्वं कर्मणां मङ्गलमङ्गलानां कर्तुस्म लोकं तनुषे स्वफरं वा अमङ्गलानां च त्वमिश्रमुल्भणं विपर्ययकेन तदेव चेत् न वै सतां त्वच्चरणार्पितात्मनां भूतेषु सर्वेषु अभिपश्यतां तव भूतानि चात्मने अपृदद्धिदृक्षतां प्रयेणरोक्षाभि भवेत्यथा प्रदधिय कर्मदृशो धुरासया प्ररोधयेनार्भिदहृद्रजोनिसं परान् दुरुक्तैर्विदुदन्त्यरुन्तुधा तान् मा वदीतैर्वधान् भवद्विदः यस्मिन् yes, yes, यदा पुष्करनाभमायया तुरन्तया अस्पृष्ट धियः पृथग् दृशः कुर्वन्ति तत्र ह्यनुकम्पया कृपां न साधवो दैवबलात्कृते क्रमं भवां स्तुपुंस परमस्य मायया दुरन्तया स्पृष्टमतिः समस्तदृतया हतात्मस्वनुकर्म चेत् स्वनुग्रहं कर्तुमिहार्हसि प्रभो कुर्वद्वरस्योद्धरणं हतस्य भो त्वया न यत् प्रभागं तव भागिनो दतुः कुयज्विनो येन महो निनीयते जीवतात्यजमानूयम् प्रभत्येधाक्षिणी भगः भृगोश्मश्रूणि रोहन्तु पूष्णो दन्तास्य पूर्ववत् देवानाम भग्नघात्राणाम् ऋत्विजां च आयुधाश्मभे भवधानुगृहीताना मास्तु मन्योस्त्व नाधुरम् येष ते यज्ञस्थे रुद्रभागेन कल्पतामद्ययज्ञहन् यज्ञसे